अथर्वेदे तृतीयाष्टके तृतीयोऽध्यायः ओ इन्द्रत्वा वृषभम् वयं सुते सोमे हवामहे सपाहिमद्भो अन्धसः इन्द्रक्रतुविदम् सुतम् सोमम् हर्यपुरुष्टुता पिबा वृषस्वता दृपिम् इन्द्रप्रणोधितावा नैयज्ञम् विश्वेभिर्देवेभिः रस्तवानविष्पते इन्द्रसोमाः सुता इमे तव प्रयन्ति सत्पते क्षयम् चन्द्रा स इन्दवः दधिष्वा जठरे सुतम् सोममिन्द्रहरेण्यम् इन्दवः गिर्वणः पाहिनः सुतम् मधोर्धाराःभिरज्यसे इन्द्रत्वादाः अभिध्युम्नानि वलिन इन्द्रम् सजन्ते अक्षिता वीप्ते सोमस्य वावृधे अर्वावतो न आगहि परावतश्च वृत्रहम् इमाजुषस्व नो गिराः यदन्तरापरावतमर्वावतम् च हूयसे इन्द्रे हरत आगहि आदून इन्द्रभद्र्यघ्रुवा नः सोमपीतये सत्तो होता न ऋत्वियस्ति स्थिरे बर्हिरानुषक् अयुज्यन् प्रातरद्रयः इमा ब्रह्म ब्रह्मवाहः क्रियन्त बर्हि सीद वीहिषूरपुरोलाशम् रारन्धिशवरेषु न एषु सोमेषु मुत्रहन् रिहन्ति शवसरस्पतिम् इन्द्रम् वत्सन्न मातराः समन्दस्माह्यन्धसो राधसे तन्दामहे न स्तोतारम् निदेकरः वयमिन्द्रत्वायवो हविष्मन्तो जरामहे उत पमस्नयुर्वसो मारे अस्मद्भिमुषो हरिप्रियार्वाङ््याहि इन्द्रस्वधा वो मत्स्वेह अर्वाञ्चन् सुखे ता सुखेरथे वहतामिन्द्रकेशिना घृतस्नोः बर्हिरासदे उपनः सुतमागहि सोममिन्द्रकवाशिरम् हरिभ्याञ्यस्ते अस्मयोः तमिन्द्रमदमागहि बर्हिष्ठाङ्ग्रामभिः सुतम् कुविन्दस्य तृप्णवाः इन्द्रमित्थागिरोममाझा गुरिषिता इतः आवृते सोमपीतये इन्द्र सोमस्य पीतये स्तोमीरिह वामहे उक्षेभिः कुपिदागमत् इन्द्रसोमाः सुता इमेतान्दधिश्वक्रतो जठरे एवाजिनीवसो विद्माहिताः धनञ्जयम् वाजेषु तधृशङ्कवे अधा ते सुम्नमीमहे इममिन्द्रगवा शिरञ्जवा शिरञ्जनः पिब आगत्या वृषभिः सुतम् तुभ्येदिन्द्रस्व ओक्ये ए, ए, ए, ए सोमम् चोदामि पीतजे एष दारन्तु ते हृदि त्वाम् सुतस्य पीतजे प्रत्नमिन्द्र हवामहे कुशिकासो अभस्यवाह बन्धुरेष्ठास्तवेदनुप्रतिमस् सोमपेयम् प्रिया सखा आयाविमुचोपबर्हि स्वामिवेहम् यवाहो ओहवन्ते आयाहि पूर्वीरतिचर्षणीराम् अर्य आशिष उपमनोहरिभ्याम् इमाहि त्वा आमतयः सोमतष्टा इन्द्र हवन्ते सख्यञ्जुषाढाः आ नो जज्ञन्न वोवृधम् स जोषा इन्द्रदेवहरिभिर्याहितूयम् अहम् हित्वा मतिभिर्जोहवेमि घृतप्रया स धमादे आचत्वावेता वृषणामहातो हरिसखा यासुहुरास्वङ्गा धानावदिन्द्रः स वनञ्जुषाणः सखा सख्यशृणवद्वन्दनानि कुविन्मा गोपाङ्गलसेजनस्य कुविद्राजानम् मघवन्द्रुजीषिन् कुविन्महर्षिम् पपिवांसं सुतस्य पुविन्मेव स्वो अमृतस्य शिक्षाः आर्त्वा बृहन्तो हरयोजिजाना अर्वागीन्द्रसधमादो इन्द्रपि बवृषदूतस्य कृष्ण आयन्ते शेरभार यस्य मदेच्यापयसि प्रकृष्णेर्यस्य मदे अपगोत्राभवर्था शृनम् हुवेम भगवानमिन्द्रमस्मिन्भरे नृतमम् वाजसातौ शृण्वन्तमुग्रमूतये समत्सुघ्नन्तम् वृत्राणि सञ्जितम् धनाना अयन्ते अस्तु हरि यतः सो सुषाढ इन्द्रहरिभिर्न आगह्यातिष्ठ हरितम् रथम् हर्यन्नुषसमर्तयः सूर्यम् हर्यन् हरोचयः विद्वांसि विद्वान्हर्यश्ववर्धस इन्द्रविश्वाः अभिश्रियाः द्यामिन्द्रो हरिधायसं पृथिवीम् हरिवर्पसम् अथ आरयद्धरितोर्भोरिभो जनयोरन्तर्हरिश्चरत् हरितो विश्वमाभातिरोचनम् हर्यश्वो हरितम् धत्तः आयुध वा वज्रम् बाष्पोर्हरिम् इन्द्रोः हर्यन्तभज्युधम् वज्रम् शुक्रैरभिवृतम् अपाहरुणोद्धरिभिरद्रिभिः सुखमुद्गा हरिभिराजत आमन्द्रैरिन्द्रहरिभिर्याहि मयूररोमभिः पाके चिन्नियमन्विन्नपाशिनोतिथन्वे एवताङ्गिः वृत्रखादो बलम् रुजः पुरान् धर्मो अपामजः स्थाता रथस्य हर्योरभिस्मर इन्द्रो दृह्लाचिदारुजः गम्भीराङ्गुदीङ्क्रतुम् पुष्यसि गादिवसु गोपायवसन्धे नवो यथा तुलङ्गुल्या इवाशत आनस्तुजम् रजिम्भराम् छन्दप्रतिजानते वृक्षम् भक्वम् फलमङ्गे वधो गृहेन्द्रसम्पारणम् वसो स्वयुरिन्द्रस्वराळसि स्मद्दिष्टिस्वयशस्तरः स वा वृषभस्य स्वराज उग्रस्य यो अजोर्यतो वज्रिणो आवीर्यावीन्द्रश्रुतस्य महतो महानी महान् असि महिषवृष्ण्येभिर्धनस्पृतग्रसहमानो अन्यान, एको विश्वस्य भुवनस्य राजा स आचक्षयया आच प्रमात्रा आभीरिचे रोचमानः प्रदेवेभिर्विश्वतो अप्रतीतः प्रवज्मनादिव इन्द्रः पृथिव्याः प्रोरोर्महो अन्तरिक्षादृजीषी उरुङ्गभीरञ्जनुषाभ्यो उग्रम् विश्वम् यच समपतम् अतीनाम् इन्द्रम् सोमासृथिभिसुतासः समुद्रन्नस्रवतापि सन्ध्ये सोममिन्द्रः पृथिवेद्या ते एहिन्वन्ति तमुते मृजम् च ध्वर्यवो वृषभपात वावो मरुत्वािन्द्र वृषभोरणाय पिबा सोममनुश्वय आसीञ्जस्व जठते मध्व ऊर्मिन् त्वम् राजासि प्रतिपः तेहि शत्रो ग्रपमृदो नुदस्वाथाभयम् ग्रोहि विश्वतो नः उत ऋतुभिरऋतुबाह् सोममिन्द्रदेवेभिः सखिभिः सुपन्नाः याङ्गाभजोपरुतो ये त्वान्वहन्वृत्रमदधुस्तुभ्यमोदाः ये त्वा हि हत्ये एमघवर्णवर्धन्येषाम्बरे येत्वा त्वा नूनमनुमदन्त्यविप्राप्पिबेन्द्रसोमम् सगणो मरुद्भिः मरुत्वम् तम् वृषभम् वा आवृधानमकवारिन्दिव्यम् शासमिन्द्रम् विश्वासाहमवसे नूतना योऽग्रम् स होदामि हतम् हुवेम्यो ह जातो वृषभः कनीनः प्रभर्तुमा वदन्धसः धोऽपि वप्रतिकामै यथा आतेरसाशिरः प्रथमम् सौम्यस्य यज्जायथास्तदहरस्य कामेषंसोऽपीयूषमपि भोगिनिष्ठा तन्ते एमातापरियूषाय हि क्रीमहः पितुर्दमहासिञ्चदग्रे उपस्थाय मातरमन्नमैट्टदिग्मपश्यदभि प्रजावयन्न च रद्गृत्सो अन्यान्महानिचक्रे पुरुधप्रतीकः उग्रस्तु राषालभिभोद्योजा यथा भसम् तन्वञ्चक्र एषः तृष्टा रविन्द्रो जनुषा विभूयामुष्यासो मम विवच्चमोषो सुनम् हुपेमघवानमिन्द्रमस्मिन्भरे नृतमम्बाजसातौ शृण्वन्तमुग्रमूतये समत्सुघ्नन्तम् वृत्राणि सञ्जितम् धनानाम् शंसा महामिन्द्रयस्मिन् विश्वा कृष्टयः सोमपाः काममव्यन् यम् सुक्रतुम् धिषणे विद्वदष्टम् घनम् वृत्राणाम् जनयन्तदेवाः यन्नो न किः पृतनासु स्वराजम् वितातरतिदृतमम् हरिष्ठाम् इनतमः सत्तभिर्योषैः पृथुज्रया अमिनादायुर्दस्योः स हा वापृत्सुतरनिर्नार्वा व्यादशीरोदशी मेहना आवान भगोनकारेऽहं यो मतीनाम् विदे पचारुस्वहवो वयोधाः धर्ता दिवो रजसः स्पृष्ट ऊर्ध्वो रथो न वायुर्वसुभिर्मियुक्तार क्षपाम्बस्ताजनिता सूर्यस्य विभक्ता भागम् धिषणे बवाजम् शुनम् भुवे ममघवा नमिन्द्रमस्मिन् भरे नृतमम्बाजसातौ शृण्वन्तमुग्रमूतये समत्सुघ्नन्तम् वृत्राणि सञ्जितम् धनानाम् इन्द्र स्वाहाव तु यस्य सोम आगत्या तुम् रो वृषभो मरुत्वारे ओरुचाः आते ए स पर्योजवसे युनज्मियजो रनुप्रतिभ सृष्टिमावाह इह त्वा आधेयुर्हरयसृषि प्रविभात्वा अस्य सुषुतस्य चारो गोभिर्मिमिक्षुन्दधिरे सुभारमिन्द्रम् ज्येष्ठ्यायथाय से गृणाराः वन्दानः सोमम् बिवाङ्षिन् समस्मभ्यम् बुरुधा गा इषण्य इमम् कामम् स्वर्यवो मतिभिस्तुभ्यम् शुनम् भवेम मघवानमिन्द्रमस्मिन् भरे नृतमम् वाजसातौ शृण्वन्तमुग्रमूतये समत्सुघ्नन्तम् वृत्राणि सन्दिकन्धनानाम् दर्षणीधृतम् मघवा न मुख्या अमिन्द्रङ्गिरोः बृहतीरभ्यनूषदावृधानम् पुरुहूतम् स्वभक्तिभिरमर्त्यञ्जरमाणम् दिवे दिवे शतक्रतुमर्णवम् शाखिनन्नरङ्गिरोः महीन्द्रमुपयन्ति वा विश्वताः वाचसनिम् पूर्भिदन्तोर्णिभक्तुरन्धामसाचमभिषाचम् स्वर्भिदम् आकरे वसोर्जरितापनस्यते नेहसस्तु भ इन्द्रो दुपस्यते विवस्वतः सदनाहिपि प्रिये सत्रासाहमभिमातिहनम् सुहि तृणामुत्पादताङ्गैर्भिरुक्थैरभिप्रवीरमर्चता सपाधाः संसहसे पुरुमायोजिहीते नमो अस्य प्रतिभ एक ईशे ऊर्वीरस्य निःशितोमर्त्येशु पुरोवसूनि पृथिवी बिभर्ति इन्द्राजद्याप ओषधीरुतापो ओरजिम् रक्षन्ति जीरजो वनानि तुभ्यम् ब्रह्माणि गिर इन्द्र तुभ्यम् सत्रादधिरे हरिवो जुषस्व बोध्याहापि रवसो नूतनस्य सखे हे वसो जतुर्भ्योपयोः इन्द्रमरुत्प इह पाहाहिशोमञ्ज्यथाः शार्या ते अपि वः सुस्य तव सपा आवशान इह पाहि सोमम् मरुद्भिरिन्द्रखिभिः सुतन्नाः जातम् यत्त्वापरिदेवा अभू ओषन्महेभराय विश्वे अप्तोर्ये ए मरुत आपि रेशोमन्दन्निन्द्रमनुदातिवाराः तेभिः साकम् विभतवृत्रखादः सुतम् सोमन्दाशुषस्वे ततस्थे इदम् ह्यन्वोजसा सुतम् राधानाम् पदे अस्य गिर्वणः यस्ते अनुस्वधामसत्सुते नियच्छतन्द्रम् सत्त्वा मम तु प्रते अश्नोतु कुक्ष्योः प्रेन्द्रब्रह्मणाशिराः प्रबाहुषूरराधसे धानावन्तम् करम्भिणमपोपवन्तमुक्थिनम् इन्द्रप्रातर्जुषस्वनः पुरोळाशम् रचत्यम् जुषस्वेन्द्रागुरस्व च तुभ्यम् हव्यानिशिस्रते पुरोळाशम् च लोघसो जोषयाः से गिरश्च नः वधूयुरिवजोषणान् पुरोळाशम् सनः श्रुतः प्रातः सारे जुषस्वनः माध्यन्दिनस्य समनस्य धानाः पुरोळाशमिन्द्रकृष्वेहचारु प्रयत् स्तोता जितातोर्ण्यर्थो वृषाय माण उपगीर्भिरीट्ये तृतीये धाराः समने पुरुष्टुत पुरोळाशमाहुतम् मामः स्वनः पूषण्वते एते च क्रमाकरम्भम् हरिवते हर्यश्वाय धानाः अपोपमध्यसगणो मरुद्भिः सोमम् विवृत्रहाशोरभिद्दाय प्रतिधाना भरततोऽयमस्मै पुरोलाशम् वीरतमाय दृणाम् दिवे दिवे सदृशे एरिन्द्रतुभ्यम् वर्धन् सोमपेयाय इन्द्रा आपर्वता बृहता रथे एनपामेरिष आवहतम् सुवीरा आह वेतम् हव्यान्यध्वरेषु देवावर्धे एताङ्गीर्भिरिडया मदन्दा तिष्ठा सुखम् अघवन्मापरा गाः सोमस्य नुत्वा सुषुतस्य यक्षि पितुर्न पुत्रस्य च आरभेत शंसाः वा प्रतिमे गृणीहीन्द्राः जः कृणवा वजुष्टम् एदम्बर्हिर्यमानस्य सीताथाः च भो दुःखमिन्द्राः यशस्तम् जायेदस्तम् मकवन्से दुजो निदिप्पाः वहन्तो यराकरा च सुलवाः दूतो धन् पराः याहि मखपन्ना च याहीन्द्रभ्रातरुभयत्रा ते अर्थम् यत्रारथस्य बृहतो निधानम् विमोचनम् वाजिनो रासभस्य अपाः सो ममस्तमिन्द्रप्रयाहि कल्याणेर्जाया सुरणम् गृहेते यत्र रथस्य बृहतो निधानम् विमोचनम् वाजिनो दक्षिणावत् इमे भोजा अङ्गिरसो विरूपदिवस्पुत्रासो असुरस्य वीराः विश्वामित्राय ददतो मघानि सहस्रसा वे प्रतिरन्तायु रूपम् रूपम् मघवाहा बो भवेति माया कृतम्बाम् परिश्वाम् त्रिर्यद्धिवः परिमुहूर्तमागात्स्वैरमन्द्रैरदावा महाङ्गृशिर्देवजा देवजूतोस्तभ्रात्सिन्धुमर्णवम् ऋचक्षाः विश्वामित्रो यदवहत्सुदा समप्रियायत कुशिके धीरिन्द्राः हंसा उपप्रेतकुशिकाश्चेतयध्वश्वम् राजे प्रमुञ्चरा सुदासाः राजा आवृत्रञ्जङ्गनत्प्रागपागुतगथायजाते वररा पृथिव्याः य इमे रोदसी उभे अहमिन्द्रमदुष्टवम् विश्वामित्रस्य रक्षति ब्रह्मेरम् भारतञ्जनम् विश्वामित्रा अरासत ब्रह्मेन्द्रायवज्रिणेः करदिम् किम् ते एन्ति कीकटेषु कावो नाशिरम् दुःख्रेण तपन्ति घर्मम् आनोऽपरप्रागन्दस्य वेदो ओ नैचा शाखम् मघवन् रन्धयानः ससर्परैरमतिम् बाधमाना बृहन्विमायजमदग्निदत्ता आसूर्यस्य लुहिता तपा न श्रवो स सर्परे नूयमेभ्यो दिश्रवः पाञ्चजन्यासु कृष्टिषु सा पक्ष्या आनव्यमायुर्दधानायाम् मेफलस्पिजमदग्नयो ददुः स्थिरौ गावौ भवताम् वेलुदक्षो मेषा विबर्हिमा युगम् विषा हरि इन्द्रः पातुल्ये एतदताम् बलम् देहि तनोषु नो बलमिन्द्रानलुत्सुनः बलम् तोकायतनयाय जीवसे त्वम् हि बलदा असि अभिव्ययस्वखदिरस्य सारमोजो देहि स्पन्दने शिंसपाहायाम् अक्षवीलो पीडितपीडयस्व भीड़ मायामाह तस्मादवजीहि वो नः अयमस्मान्वनस्पतिर्मा च माचरीरिषत् स्वस्यागृहेभ्य आर्बहुलाभिर्नो अद्ययाच्छ्रेष्टाभिर्मघवञ्चिन् यो नोद्वेष्ट्यधरसपरिष्टयमुद्विष्मस्तमु प्राणो जहातु परशिञ्चिद्भिरपरिशिम्बरञ्चिद्भिष्टति उखाचिदिन्द्रये सन्ति प्रयस्तापे नपस्यति न सायकस्य जीते जनासो लोधम् नयन्ति पशुमन्यमानाः ना वा आजिनम्बाजिना आसयन्ति न गर्बहम् पुरो अश्वान् नयन्ति इम इन्द्रभरतस्य पुत्रा अपवित्वम् जीतुर्न प्रवित्वम् इन्वन्त्यश्वमरणन्द इत्यन्द्या आवाजम्बरि नयन्द्यादौ इमम् महे विदत्था आयशोषम् शश्वत्कृत्व एड्या आजप्रदभ्रुः शृणोतु नोदम् ये फिलनीकैः शृणोत् भग्निर्दिम् रजस्रः महि महे दिवे अर्चापृथिम् यै कामोम इच्छन्तरति प्रजानन् ययोर्हस्तो मे विदथेषु देवाः पर्यवो मादयन्ते स चायोः युगोरतम् रोदसी सत्यमस्तु महे शृणः सु इदम् दिवे नमो अग्ने पृथिवी सपर्यामि प्रयसायामि रत्नम् कुतो हिमाम्बूर्याविद्रलताः परी रोदसी सत्यवाचाः नरश्चिद्वाम् समिथे शूरसातौ ववन्धिरे पृथिवे विदानाः को अद्धावे एतक इह प्रभो वो च एषाममासदांसि परे एषु यागुह्ये एषु मृतेषु कविर्नृचक्षा अभिषीमचष्टृतस्य यो नाभिघृते मदन्ति नानाचक्राते सदनम् यथा वेः समाने न क्रतुना संविधाने समान्या वियुते दूरे अन्ते ध्रुवे पदेतस्थतुर्जागरूके कुतस्वसा राजुवती भवन्ति आदुब्रुवाते मिथुना निे देते जनिमासम् विविक्तो महो देवान् विभ्रतीरम् यथेते एजद्ध्रुवम् पथ्यते विश्वमेकम् चरत्पतत्रिविषुणम् विजातम् स नाः पुराणमध्ये इङारान्महः पितुर्जनितुर्जामि तन्नाः देवासो यत्र परितार एवैरुरौ पथिम् युते तस्थुरन्तः इमम् स्तोमम् रोदसी प्रब्रवीम्बिरोदराः शृण्वन्नग्निजिह्वाः मित्रः वरुणो युवाहानहाधित्यासः क्रवयः पप्रधाराः हिरण्यपाणिस्स पितासु जिह्व स्त्रिराधिवो विदथे पत्यमानः देवेषु सुमृत्सुपाणिष्व वाृता वा देवः स्पष्टावसेतानि नोधात् ऊषण्वन्तर्भवो मादयध्वमूर्ध्वग्राः बाणो अद्धरमतष्टा विद्युद्रथा मरुतृष्टिमन्तोः दिवो मर्याः अजासाः सरस्वती शृण्वन् यज्ञाः सोधाता रयिम् सहवीरन्तुरासह विष्णुं स्तोमासः पुरुदस्मवर्काभगस्येव कारिणो यामनिग्मन् उरुक्रमः कपुहो यस्य पूर्वीर्न वर्धन्ति युवतयोजनित्रैः इन्द्रो विश्वैर्वीर्यैः पत्यमान उभे आपप्रदसीमहिता पुरन्दरो वृत्रः धृष्णुषेरेणः सङ्गभ्या आन आभरा भूरिपश्वः ना सत्या मे पितराः बन्धुपृच्छाः सजात्यमश्विनोश्चारुनाम युवम् विस्थोरयि यौनोरयीणाम् दात्रम् रक्षेथे अकपैरदब्धा महत्तद्वः कवयश्चारुनाम यद्धदेवाभवथ विश्व इन्द्रेः सखरुभिः पुरोतप्रियेऽभिरिमान्वियम् साधयेतक्षतानः अर्यमाणो अदितिर्यज्ञियासो व्रतानि योत नो अनपत्या निगन्तो अः प्रजावान्नः पशुमान् अस्तु गातुः देवानान्दोतः पुरुधः सर्वता आता शृणोतु नः पृथिवीद्यौ रुतापः सूर्यो नक्षत्रैरुर्वा अन्तरिक्षम् शृण्वन्तु नो पर्वतासो ध्रुवक्षे एमास इळयामदन्तः आदित्यैर्नो अदितिशृणो त यच्छन्तु नो मरुतः शर्म भद्रम् स्वदा अस्तु पन्था मद्धा आदेवा ओषधेः सम् विवृक्ता अग्ने सख्येन वृद्ध्या रुद्रायो अश्याम् सदनम् पुरुक्षोः स्वदस्वहव्यासमिषो आदिदेह्य स्मद्र्या अर्क्संमेहि श्रवांसे विश्वाम् अग्ने पृच्छुताञ्जे षुशत्रो नः विश्वा सुमना आदेहीनः उषसः पूर्वाथ यद्व्योषुर्महद्विलग्ने अक्षरम् पदे गोः व्रता देवानाम पदुप्रभोषन् महद्देवानामसुरत्वमेकम् मोषोढोहत्र जुहुरन्तदेवाना पूर्वे अग्ने पितरः पुराण्योः सद्मनोः हेतुरन्तर्महद्देवानामसुरत्वमेकम् युगे पुरुत्रापतयन्ति कामाश्यच्छा आदिद्ये पूर्व्याणि समिद्धे अग्नावृतमिद्वदे महद्देवानामसुरत्वमेकम् समानो राजा विभृतः पुरुत्राशये एषया सुप्रयुतोपनानो अन्या वत्संहरति क्षेति माता महद्देवानामसुरत्वमेकम् आक्षित्पूर्वा स्वपरा अनोरुत्सद्यो जाता सुतरुणीष्वन्तः अन्तर्वते सुवते अप्रवीता महद्देवानामसुरत्वमेकम् शयोः परस्तादथनुद्विमाता बन्धनश्चरति वत्स एकाः मित्रस्य ता वरुणस्य व्रतानि महद्देवानामसुरत्वमेकम् माता होता विदथेषु सम्राणन्नग्रम् चलति क्षेति बुध्नः प्ररण्या निरण्यवाचो भरन्ते महद्देवानामसुरत्वमेकम् शूरस्येव युध्यतो अन्तमस्य प्रतीचीनम् ददृशे विश्वमायत् अन्तर्मतिश्चलति निः श्रीङ्गोर्महद्देवानामसुरत्वमेकम् निवे एवेति परितो दूताः स्वन्तर्महाश्चलति लोचनेन ओम् शिविभ्रदभिनो विचष्टे महद्देवानाहामसुरत्वमेकम् विष्णुर्गोपाः परमम् पा आदिपाथः प्रिया धामा अन्यवृता दधा नः अग्निष्टा नाना चक्राते यम्या आं शितयोरन्यद्रोचते कृष्णमन्यत् श्यावी च यदरुषी च स्वसा रौ महद्देवानामसुरत्वमेकम् माता चयत्र दुहिता च धेनुसमर्दुके धापयेते सबीची ऋतस्यते सदशीले अन्तर्महद्देवानामसुरत्वमेकम् अन्यस्या आवत्संरिहते मि मायकयाः भुवा निरथे धेनुरूधाः ऋतस्य सा पयसा पिन्वतेळाः महद्देवानामसुरत्वमेकम् प्रद्यावस्ते पुरुपावपोहुंश्योर्भातस्थौत्रिमिम्रेरिहाणा ऋतस्य सद्मविटरामि विद्वान् महद्देवानामसुरत्वमेकम् पदे इव निहिते तस्मै अन्तस्तयोः रन्यद्गुह्यमाभिरन्यत् सध्रीचीनापथ्या आसा विशोचे महद्देवानामसुरत्वमेकम् आथे नवोऽधुनयन्तामशिवेष्वेः सपर्दुघाः शया अप्रदुग्धाः नव्या आनव्यायुवत यो भवन्तेर्महद्देवानामसुरत्वमेकम् यदन्यासु वृषभोरोरवीतिसो अन्यस्मिन् यूथे निरधातिरेताः स हि क्षपाः पान्छभगः स राजाः महद्देवानामसुरत्वमेकम् वीरस्य नुः स्व्यञ्जनासः प्रणुवोचामविदुरस्य देवाः षोळायुक्ताः पञ्च पञ्चावहन्ति महद्देवानामसुरत्वमेकम् देवः स्पृष्टाः सविता विश्वरोपः पुपोष प्रजाः पुरुधा जान इमा च विश्वाभुवनान्यस्य महद्देवानामसुरत्वमेकम् महे समयीरच्चम्बाः समीची उभेते अस्य वसुनान्यष्टे शृण्वे वीरोविन्दमा नो वसो निमहद्देवानामसुरत्वमेकम् इमाञ्जनः पृथिवीम् विश्वधाः या उपक्षेति हितमित्रो न राजाः पुरःसरः शर्मसदो न वीरा महद्देवानामसुरत्वमेकम् निश्चिद्भलेस्तरोषधीरुतापो रयिन्द्र पृथिवी बिभर्ति सखा आयस्ते यस्तेवामभाजस्याम महद्देवानामसुरत्वमेकमम् इति तृतीयाष्टके तृतीयोऽध्यायः